भगवद्गीता चाप्टर् टेन् वर्षस् वन् टु टेन् अध दशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमम्बः यत्तेकं प्रीयमाणाय वक्ष्यामि हितकाम्यया न मे विदुत्सुरगणाप्रभवन्न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असंमोढसमर्थेषु सर्वभावै प्रमुच्यते बुद्धिर्ज्ञानमसंमोघक्षमा सत्यं दमः सुखं दुःखं भवो भावो, भावो भयं च भयमेव च अहिंसा समदातुष्टिस्तबोदानं यशोयशः भवन्दि भावा भूदानां मस्त एव पृथग्विधा महर्षयः सप्तपूर्वे चत्वारो मनवस्तधा मद्भावा मानसा जागा येषां लोग इमा प्रजागा येदां विभूतिं योगञ्च मम योगेति तत्वदः सोऽविकम्बेन योगेन युज्यतेनात्र संशयः अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते माम्बुधा भावसमन्विताः मच्चित्तामद्गदप्राणाबोधयन्तः परस्परं कथयन्धश्च मां नित्यं तुष्यन्ति च तेषां सततयुग्राणां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगन्धं येन मामुभयान्ति ते भगवद्गीता चाप्टर् टेन् वर्सस् लेवन्त् ट्वेन्टि तेषामेवानुकं वार्तमहमज्ञानजं तमः नाशयाम्यात्मभावस्थोज्ञानदीबेन भस्वदा अर्जुन उवाच परं ब्रह्म परं दाम परमं भवान् पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् आहुस्त्वा मृषयः सर्वे देवर्षिर्नारदस्तथा असि दो देवलो व्यासस्वयं स्वयं चैव ब्रवीषि मे सर्वमे दधृतं मन्ये यन्मां वदसि केशव नसि ते भगवन्व्यक्तिं विदुर्देवानदानवाः स्वयमेवात्मनात्मानं वेधत्वं पुरुषोत्तम भूतभावन भूदेश देवदेवजगत्पदे वक्तुमर्हस्य शेषेण दिव्यास्यात्मविभूतयः याभिर्विभूतिभिर्लोगानि मां त्वं व्याप्य तिष्ठसि कथं विद्यामघं योगिं स्वां सदा परिचिन्तयन् केषु केषु जभावेषु चिन्त्योऽसि भगवन्मया विस्तरेणात्मनो योगं विभूदिंच च जनार्दन भूय कदयतृप्तिर्हि शृण्वदो नास्ति मे मृदम् श्रीभगवानुवाच हन्धदे कदयिष्यामि दिव्यास्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठनाप्यन्दो विस्तरस्य मे भगवद्गीता छात्र ट्वेण्टि वन् 21 तर्टि 30 नामकं विष्णु ज्योतिषाम्रविरं सुमान् मरीचिनुमरुदामस्मि नक्षत्राणामकं शशि वेदानां इन्द्रियाणाम् मनश्चास्मि भूतानामस्मि चेदना रुद्राणाम् शङ्करच्चास्मि वित्तेशो यक्ष रक्षताम् वसूनाम् पावकच्चाग्नि मेरुश्चि परिणामकम् पुरोदसाञ्च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् नीनामहं स्कन्धः सरसामस्मि सागरः महर्षीणाम् भृगुरकम् गिरामस्म्येदमक्षरम् यज्ञानाम् जग यज्ञोऽस्मि सावराणाम् हिमालयः अश्वब्धः सर्ववृक्षाम् गन्धर्वाणाम् चित्ररथसिद्धानां कविलो मुनिः उच्चैत्रवसमश्वानाम् विद्धि माम मृगोद्भवम् ऐरावतम् गजेन्द्राणाम् नराणां च मरादिवम् आयुधानाम प्रजनश्चास्मि कन्दर्प सर्पाणामस्मि मा सुभिः अनन्तश्चास्मि नादानां वरुणो या दसामहम् वितृणामयमा चास्मि यमः संयमदामहम् प्रस्वादश्चास्मि दैत्यानां काल मृगाणां च मृगेन्द्रोकं वै न धेयच्च पक्षिणाम् भगवद्गीता चाप्टर् टेन् वर्षस् थर्टि वन् टु फार्टि टु पवनप्रवदामस्मि राम शस्त्रवदामहं जान्यवी सर्गाणामादिरन्दश्च मध्यं चैवातमर्जुन अध्यात्मविद्याविद्यानां वादप्रवदधामहम् अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयकालोद्धाता संविश्वतोमुखः मृत्युः सर्वकरश्चाहमुद्भवश्च भविष्यता कीर्तिश्रीर्वाश्च नारीणां स्मृतिर्मेधा हृदि क्षमा बृकत्साम तथा मासानां मार्गशीर्षोऽहं कुसुमाकरः द्युदं चलजतामस्मि तेजस्तेजस्विनामहं जयोऽस्मि व्यवसायोस्मि सत्वं सत्त्ववदामहं वृशीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामाप्यगं व्यासकवीनामुशना कविः दण्डोदमयदामस्मि निधिरस्मि जिगीषदा मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवदामहं यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यात्मया भूतं चराचरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप्येष तूद्देश्यदप्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा तत्तदेववगच्छत्वं मम तेजोंशसम्भवम् अथवा बहुनैतेन किं ज्ञानेन तवार्जुन पिष्टभ्यागमिदं कृष्णमेकांशेन स्थितो जगत् ॐ तत्सत्यधि श्रीमद्भगवद्गीतासुदशमोऽध्यायः